श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् अष्टादशोऽध्यायः आहारार्थम् समीहेत युक्तम् तत्प्राणधारणम् तत्त्वम् भ्रमिष्यते तेन तद्विज्ञाय विमुच्यते यदि क्षयोपपन्नानाम् अद्याच्छेष्टमुता परम् तथा वासस्तथा सय्याम् प्राप्तम् प्राप्तम् भजेन्मुनिः शोचमाचमनम् स्नानं न तु चोदनयाचरेत् अन्याश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः नैतस्य विकल्पाख्याया च मद्भीक्षया हताम् आदेहान्तात्कचित् ख्याते तत सम्पद्यते मया दुःखो दर्केषु कामेषु जातनिर्वेद आत्मवानम् अजिज्ञासीत मद्धर्मो गुरुम् मुनिमुपाभ्रजेत् तावत् परिचरेद्भक्तः श्रद्धावाननसूयकः यावद्ब्रह्म विजानीयान् मामेव गुरुमादृतः यस्त्व संयद् षड्वर्गप्रचण्डेन्द्रियसारथिः जानवैराग्रहित त्रिदण्डमुपजीवति सुरानात्मानमात्मस्थं निभुते मां तु धर्मः अविपक्वकषायोस्मादमुस्मात् नमुस्माच्च विहीयते भिक्षो धर्मसमो हिंसा तपेक्षावनौ कस गृणो भूतरक्षेद्यादिदस्याजसेवनम् ब्रह्मचर्यम् तपः शोचम् सन्तोषो भूतसौहृदम् गृहस्थस्यापि तौ गन्तु सर्वेषाम् मदुपासनम् इति मां य स्वधर्मेण भजन् नित्यमनन्यभाक् सर्वभूते सुमद्भावो मद्भक्तिम् विन्दते धृणाम् भक्तोवानवपायिन्या भक्त सर्वलोकमहेश्वरम् सर्वोत्पत्त्यप्ययम् ब्रह्म कारणम्ोपयाति स इति स धर्म निर्णिक्त सत्त्वो निर्यातमद्गतिः ज्ञानविज्ञानसम्पन्नो नाचिरासमुपैति माम् वर्णाश्रुमवताम् धर्म एष आचरलक्षणः वर्णाश्रुमवताम् धर्म एष आचारलक्षणः स एव मद्भक्तियतो ने श्रेयसकरपरः एतद्धे भीतं साधो भवान् पृच्छति यच्चु माम् यथा भक्तो मां समियात् परम् ते श्रीमद्भागुते महापुराणे पारमहंस्यां सहितायाम् एकादश स्कन्धे अष्टादशोऽध्यायः